अथ सप्तसप्ततितमः सर्गः ततो दशाहेति गते कृतशौचो नृपात्मजः द्वादशे हनि सम्प्राप्ते श्राद्धकर्माण्यकारयत् ब्राह्मणेभ्योऽधनम् रत्नम् ददा वन्नम् च पुष्कलम् वासांसि च महार्हाणि रत्नानि विविधानि भी च वास्तिकम् बहुशुल्कम् च गाश्चापि बहुशस्तदा दासीर्दासांश्च यानानि वेश्मानि सुमहान्ति च ब्राह्मणेभ्यो ददौ पुत्रो राज्ञस्तस्यौर्ध्वदेहिकम् ततः प्रभातसमये दिवसे चत्रयोदशे त्रयोदशे विललापमहाबाहुर्भरतः शब्दापि हितकण्ठश्च शोधनार्थमुपागतः चितामूलेऽपितुर्वाक्यमिदमाह सुदुःखितः तात यस्मिन्निसृष्टोऽहम् त्वया भ्रातरि राघवे तस्मिन्वनम् प्रव्रजिते शून्ये त्यक्तोऽस्म्यहम् त्वया यस्यागतिरनाथाया गतिरनाथायाः वनम् मम्बाम् तात कौसल्याम् त्यक्त्वा त्वम् नृपा दृष्ट्वा भस्मारुणम् तच्च दग्धास्थिस्थानमण्डलम् पितुः शरीरनिर्वाणम् निष्टनन्विषसादः स तु दृष्ट्वा रुदन् दीनः पपातधरणीतले उत्थाप्यमानः शक्रस्य यन्त्रध्वज अभिपेतुस्ततः सर्वे तस्या मात्याः शुचिव्रतम् अन्तकाले निपतितम् उन्मत्त इव निश्चित्तो गन्थरा प्रभवस्तीव्रः कैकेयी ग्राहसङ्कुलः वरदानमयोक्षोभ्यो मज्जयच्छोकसागरः सुकुमारम् च बालम् च सततम् लालितम् त्वया क्व तातभरतम् हित्वा विलपन्तम् गतो भवान् ननु भोज्येषु पानेषु वस्त्रेष्वाभरणेषु च प्रवारयते सर्वान्नस्तन्नः कोद्यकरिष्यति अवदारणकाले तु पृथिवीनावदीर्यते विहीनाया त्वया राज्ञा धर्मज्ञे न महात्मना हृदरि स्वर्गमापन्ने रामे चारण्यमाश्रिते किम् मे जीवितसामर्थ्यम् प्रवेक्ष्यामि हुताशनम् हीनो भ्रात्रा च पित्रा च शून्यामिक्ष्वाकुपालिता अयोध्याम् न प्रवेक्ष्यामि प्रवेक्ष्यामि तपोवनम् तयोर्विलपितम् श्रुत्वा व्यसनम् चाप्यवेक्ष्य तत् भृशमार्ततरा भूयः सर्व एवानुगामिनः ततो -no विषण्णौ श्रान्तौ च शत्रुघ्नभरताबुभौ भ्रात्राज। धरायाम् स्मव्यचेष्टेताम् भग्रशृङ्गाविवर्षभौ ततः प्रकृतिमान् वैद्यः पितुरेषाम् पुरोहितः वसिष्ठो भरतम् वाक्यमुत्थाप्य तमुवाचः त्रयोदशोऽयम् दिवसः पितुर्वृत्तस्य विभो सावशेषास्थिनिचये किमिह त्वम् विलम्बसे त्रीणि द्वन्द्वानि भूतेषु प्रवृत्तान्यविशेषतः तेषु चापरिहार्येषु नैवम् भवितुमर्हसि सुमन्त्रश्चापि शत्रुघ्नमुत्थाप्याभिप्रसाद्य च श्रावयामास तत्त्वज्ञः सर्वभूतभवा भवौ उत्थितौ तौ अश्रूणि परिमृद्नन्तौ रक्ताक्षौदीनभाषिणौ अमात्यास्त्वरयन्ति स्म तनयौ चापराः क्रियाः इत्यार्षे श्रीमद् रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे सप्तसप्ततितमः